द्विजप्रभावाद्राजेन्द्रव्यजीवत् सवनस्पतिहि वनस्पतिः तेनागम्य यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च एतत् कथितं राजन् यथा दृष्टं श्रुतं च श्रुत्वा चन्द्रपशार्दूल विधत्स्वयदनन्तरं सौतिरुवाचा मन्त्रिणां तु वचः श्रुत्वा स राजा जनमे जयः पर्यतप्यतदुःखार्थप्रत्यपिंशत्करं करे निश्वासमुष्णमसकृद् दीर्घं राजीवलोचनः मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः उवाच च महीपालो दुःखशोकसमन्वितः दुर्धरं भाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि मुहूर्तमिव च ध्यात्वा निश्चित्य मनसान्द्रुपः अमर्षिमन्त्रिणः सर्वानिदं जनमे जय उवाच श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति निश्चितेयं अनन्तरम् च मन्येऽहम् तक्षकाय दुरात्मने प्रतिकर्तव्यमित्येवम् येन मे हिंसितः पिता शृङ्गिणम् हेतुमात्रम्यः कृत्वा दग्ध्वा च पार्थिवम् दुरात्मता तस्य काश्यपं योऽन्यवर्तयत् यदा गच्छेत् स वै पिता मम परिहीयेत किं तस्य यदि जीवेत् स पार्थिवः काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च स तुवारितवान्मोहात् काश्यपं द्विजसत्तमं सञ्जिजीवशुम् प्राप्तं राजानमपराजितं महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः द्विजस्य यो दद्रव्यं मा नृपम् जीवयेदिति उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियं भवतां चैव सर्वेषां गच्छाम्यपचितिम् पितुः इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि पारिक्षितमन्त्रिसंवादे पञ्चाशत्तमोऽध्यायः